श्री श्रीदेव्यधर्वशीर्षम् ओ सर्वे वै देवा देवी कासि त्वम् माहादेवीति सा ब्रवीत् अहम् ब्रह्मस्वरूपिणी मत्त प्रकृतिपुरुषात्मकम् जगत् शून्यम् च शून्यम् च अहमानन्तानानन्दौ अहं विज्ञानाविज्ञाने अहम् ब्रह्मा ब्रह्मणि वेदितव्ये अहं पञ्चभूतान्यपञ्चभूतानि अहमखीलं जगत वेदोऽहमा वेदोऽहम् विद्याह मा विद्याहम् मा अजाह मानजाहम् अध स्वोर्ध्वं च तिर्यक्चाहम् अहं रुद्रेभिर्वसुभिश्चरामि अहमादित्यैरुदविश्वदेवैः अहं मित्रावरुणा वो भव बिभर्मि अहमिन्द्राग्ने अहमश्विना उभौ अहं सोमन् त्वष्टारं पूषणं भगन् दधामि अहं विष्णुमुरुक् क्रमं ब्रह्माणमुद प्रचापतिन्दधामि अहं दधा मे द्रवीणं हविष्मा ते सुप्राव्ये एजमानायसुन्वते अहं राष्ट्री सङ्कमानि वसूना चिकितुषि प्रथमा यज्ञियाना अहं सुवे पितरमस्य मूर्धन् मम योनिरप्स्व अन्दस्सामुद्रे समुद्रे वेदा सदैवी वेद सम्पदमाप्नोति ते देवा अब्रुवन् नमो देव्यै महादेव्यै शिवायै सततन्नमः नमः प्रकृत्यै भद्रायै नियताः प्रणता स्मता तामग्निवर्णान्तपसाज्वलन्ति ता वैरोचनी कर्मफले शुजुष्ठा दुर्गा देवी शरणम् प्रपद्या महे सुरान्नाशयित्र्यै ते नमः देवी वाजमजनयन्दस्ता विश्वरूपाः पशवो वदन्ति सा नो मन्द्रे शमोर्जन् ध्यनोवागस्माषुत कालरात्रि ब्रह्मस्तु वैष्णवी स्कंदमातर सरस्वतीमदिन् दक्षदुहितरन्नमां मःपावना शिवा महालक्ष्म्यै च चा विद्महे सर्वशक््यै च चा धीमहि तन्नो देवीः प्रचोदयात् दक्षया दुहिता तव तान् देव भद्रा अमृदबन्धवः कामो यो हि कमल वज्रपाणिर्गुहाः स मादरिष्वाभ्रमिन्द्रः पुनर्गुहा सकला विश्वमातादिविद्यो येषात्मशक्तिः एषा विश्वमोहिनी पाशाङ्घुशधनुर्बाणधरा एषा श्रीमहाविद्या य एवं वेदशोगन्तरदि नमस्ते अस्तु भगवति मातरस्मान् पाहि सर्वतः शैषाष्टौ वसवः शैषैकादशरुद्राः सैषा द्वादशादित्याः सैषा विश्वे सोमापा असोमपाश्च सैषा यादुथाना असुरा रक्षांसि पिशा च ाः सिद्धाः सैषा सत्वरजस्तमांसि सैषा ब्रह्मविष्णुरुद्ररूपिणी सैषा प्रजापदीन्द्रमनवः सैषाग्रहनक्षत् ्रज्योतीं षि कला काष्ठादिकालरूपिणी तामहं प्रणौमि नित्यं पापापहारिणीं देवीं भोक्तिमुक्तिप्रदायिनी अनन्दाम् विजयाम् शुद्धा शरण्याम् शिवदाम् शिवा वियदीकार्योक्तम् विदिहोत्र समन्वितम् अर्धेन्दुलसीदन् बीजम् सर्वार्थसाधकम् एवमेकाक्षरं ब्रह्म यतयः शुद्धचेतसः ध्यायन्ति परमानन्दमया ज्ञानाम्भुराशयः वाङ् माया ब्रह्मसोऽस्तस्मात् षष्टम् वक्त्रसमन्वितम् नारायणेन सम्मिश्रो वायुश्चाधरयुक्तातः विच्चेणवार्नकोर्नस्यान्महदानन्ददायकः हृत्पुण्डरीकमध्यस्ता प्राद सूर्यसमप्रभा पाशाङ्गुशधरां सौम्यां वरदा भयहस्तका त्रिनेत्रां रक्तवसना भक् कामदुखां भजे न मामि त्वा महाभयविनाशिनी महादुर्गप्रशमनी महाकारुण्यरूपिणीम् यस्या स्वरूपम् ब्रह्मादयो न जानन्ति तस्मादुच्यते अज्ञेया यस्य अन्तो न लभ्यते तस्मादुच्यते आनन्दा यस्या लक्ष्यन्नोपलक्ष्यते तस्मादुच्यते आलक्ष्या। यस्या जननोप लभ्यते तस्मादुच्यते अजा वर्त तस्माुच्येक विश्व तस्माुच्य नैका अतच्य अज्ञेन लक्षका नैके मंद्राण मातृका देवी शब्द ज्णी न्यान ज्नाना चिन्मयातीता शून्याना शून्यसाक्षिणी यस्याः परतरन्नास्ति सैषा दुर्गाप्रकीर्तिता तान् दुर्गान् दुर्गमान् देवी दुराचारविखातिनीम् नमामि भवभीतोहं संसारार्णवतारिणीम् इदमधर्वशीर्षयोधीते स जपफलमाप्नोदि इदमधर्वशीर्षमज्ञात्वा योर्चा स्थापयदि सदलक्षं प्रजप्त्वापि सोर्चा सिद्धिन्न विन्ददि सदमष्टोत्तरञ्चास्य पुरश्चर्याविधिस्मृतः दशवारं पाढेध्यस्तु सद्यः पापैः प्रमुच्यते महादुर्गाणि तरधिमहादेव्या प्रसादतः सायमधिया नो दिवसकृतं पापन्नाशयति प्रातरधीया नो रात्रिकृदं पापन्नाशयति सायं जानो पापो भवति निशीथे तुरीयसन्ध्यायाम् जप्त्वा वाक्सिद्धिर्भवति नूतनाया प्रदिमायाम् जप्त्वा देवता सान्निध्यम् भवति प्राणप्रतिष्ठायाम् जप्त्वा प्राणानाम् प्रतिष्ठा भवति भौमाश्विन्या महादेवी सन्निधौ जप्त्वा महामृत्युन्तरति स महामृत्युन्तरति यम् वेद इत्योपनिषत् ओ oh.